ब्रह्माण्डपुराणं मध्यभागम् अध्यायं 56 गङ्गानयनं जैमिनिरुवाच ये दत्ते चरितं सर्वं सगरस्य महात्मनः सङ्क्षेपविस्तराभ्यां तु कथितं पापनाशनं खण्डों भारदो नाम दक्षिणोत्तरमायतः नवयोजनसाहस्रं विस्तारपरिमण्डलं पुत्रैस्तस्य नरेन्द्रस्य मृगयद्भिस्तुरङ्गमं योजनानां सहस्रं तु खात्वाष्टौ विनिपादिताः सागरस्य सुतैर्यस्माद्वर्धितो मकरालयः ततः प्रभृतिलोकेषु सागराख्यामवाप्तवान् ब्रह्मपादावधिमहीं सतीर्थक्षेत्रकाननाम् अब्धिसङ्क्रमयामास परिक्षिप्य निजाम्भसा ततस्तन्निलया सर्वे सदेवासुरमानवाः इतस्ततश्च संजाता दुःखेन महदान्विताः गोकर्णं नामविक्यादं क्षेत्रं सर्वसुरार्चितं सार्धयोजनविस्तारं तीरे पश्चिमवारिधेः तत्रा सङ्ख्यानि तीर्थानि मुनिदेवालयाश्च वै वसन्ति सिद्धशङ्खाश्च क्षेत्रे तस्मिन् पुरा नृपक्षेत्रं तल्लोकविख्यातं सर्वपापहरं शुभं तत्तीर्थमब्धेरपतद्भागे दक्षिणपश्चिमे ये तपस्त्वा मुनयशंशित्रता परमं परम प्राप्ता पुनरावृत्तिवर्जित त्रेत्र प्रभाव प्रीता भूद गण सह दिव्या सकलैर्देवैर्नित्यं वसति शङ्करः येनांसि यत्समुद्दिश्य तीर्थयात्रां प्रकुर्वतां नृणामाशु प्रणश्यन्ति प्रवादे शुष्कपर्णवद तत्क्षेत्रसेवनरतिर्नैव जात्वभिजायते समीपे वसमानो नामपि पुंसां दुरात्मनां महादा सुकृतेनैव तत्क्षेत्रगमने गमने नृणां सञ्जायते राजन्नान्यथा तु कथञ्चन निर्बन्धेन तु एतस्मिन् प्राणिनः स्थिरजङ्गमाः म्रियन्ते नृपसद्यस्ते स्वर्गं प्राप्स्यन्ति शाश्वतम् स्मृत्यापि सकलैपापैर्यस्यमुच्येतमानवः क्षेत्राणामुत्तमं क्षेत्रं सर्वतीर्थनिकेतनं स्नात्वा चैतेषु तीर्थेषु यजन्तश्च सदाशिवम् सिद्धिकामा वसन्ति स्म मुनयस्तत्र केचन कामक्रोधविनिर्मुक्ता ये तस्मिन्विधमत्सराः निवसन्त्यचिरेणैव तत्सिद्धिं प्राप्नुवन्ति जप होमरता शान्ता निपता ब्रह्मचारिणः वसन्ति तस्मिन् येते हि सिद्धिं प्राप्स्यन्त्यभीप्सिता दानहोमजपाद्यं वै पितृदेवद्विजार्चनम् अन्यस्मात् कोटिगुणितं भवेत्तस्मिन् फलं नृप अम्भोधिसलिले मग्नतस्मिन् क्षेत्रेदि पावने महदा तपसा युक्ता मुनयस्तन्निवासिनः सख्यं शिखरिणं श्रेष्ठं निलयार्थं समारुहन् वस्सं तस्तत्र सर्वे सम्प्रधार्य परस्परम् सहेन्द्राद्रौ तपस्यन्तं रामं गन्तुं प्रचक्रमुः राजोवाच अगस्त्यपीततोग्धौ परिदो राजनन्दनैः खात्वाधः पादिदे क्षेत्रे भूभागेषु तथान्येषु पुरग्रामाकरादिषु विनाशितेषु देशेषु समुद्रोपान्दवर्तिषु किम कार्षुर्मुनिश्रेष्ठ जनास्तन्निलयास्ततः तत्रैव चावसन्कृच्छ्रात् कालूर्ण भूतप निधि कना वापि प्रकारेण ब्रमणस्वे जैमिवाच अनुपेशु प्रदेशेशु नाशिषु दुरात्म जनास्तनिलया सर्वे सम्प्रया इदस्ततः तत्रैव चावसन्कृत्रात् केचित्क्षेत्रनिवासिनः यदस्मिन्नेव काले तु राजन्नं सुमदसुतः बभूव भुवि धर्मात्मा दिलीप इति विश्रुतः राज्येऽभिषिच्य तं सम्यग्भुक्त भोगोऽंशुमानृपः वनं जगाममेधावी तपसे धृतमानसः दिलीपस्तु तत श्रीमानशेषां पृथिवीमिमां पालयामास धर्मेण विजित्य सकला भगीरथो नाम सुतस्तस्यालोकविश्रुतः सर्वधर्मार्थकुशलश्रीमानमिदविक्रमः राज्येऽभिषिच्य तं राजा दिलीपोऽपि वनं व्ययौ स चापि पालयन्नुर्वीं सम्यग्विहदकण्टका मुमुदेविधैर्भोगैर्दिविदेवपतिर्यथा स शुश्रवात्मनः पूर्वं पूर्वजानां महीपतिः निरये पतनं घोरं विप्रकोपसमुद्भवं ब्रह्मदण्डहदान् सर्वान् पिदन् श्रुत्वादिदुःखितः राज्ये बन्धुशुभोगे वा निर्वेदं परमं व्ययौ स राज्यं विन्यस्य तपसेवनं प्रयौ स्वपितृन्नागं निनीषुर्नृपसत्तमः तपसा महादा पूर्वमायुषे कमलोद्भवम् आराध्य तस्मालेभे च यावदायोर्निजेप्सितं ततो गङ्गां महाराज समाराध्यप्रसाद्य च वरमागमनं वव्रे दिवस्तस्या महीं प्रति ततस्तां शिरसाधर्तु तपःसाराधयच्छिवम् स चापि तद्वरं तस्मै प्रददौ भक्तवत्सलः मेरोर्मूर्ध्नस्तदो गङ्गां पदन्ती शिरसात्मनः सग्राहनक्रमकरां जग्राहजगदाम्पदिः सा तच्छिरः समासाद्य महा वेगप्रवाहिनी तज्जडामण्डले शुभ्रे विलील्ये साधिगह्वरे चुलकोदकवच्छम्भोर्विलीनां शिरसि प्रभोः विलोक्य तत्प्रमोक्षाय पुनराराधयद्धरं सदां सर्वप्रसादेन लब्ध्वादु भुवमागदाम् आनिन्ये सागरा दग्धा यत्र तां वै दिशं प्रति सनुव्रचन्ती राजानं राजर्षेर्यचधः पथि तद्यज्ञवाडमखिलं प्लावयामास सर्वतः सदुराजऋषिक्रुद्धो यज्ञवाडेऽखिले तया मग्ने गण्डूषजलवत्सपपौक्तामशेषतः अतन्त्रिदो वर्षशतं शुश्रूषित वा शतं पुनः तस्मात् प्रसन्नानृपतिर्ले मे गङ्गां महात्मनः उषित्वा सुचिरं तस्य निःसृता जठराद्यतः प्रथिदं जाह्नवीत्यस्यास्तदो नामा भवद्भुवि भगीरथानुगा भूत्वा तत्पितॄणामशेषतः निजाम्भसास्ति भस्मानि शिषे च सुरनिम्नगा तदस्तदम्भसासि कृतेष्वस्ति भस्मसु तत्क्षणाद् निरयात् सागरात् सर्वे नष्टपापा दिवं ययुः एवं सा सागरान् सर्वान् दिवं नीत्वा महानदी तेनैव मार्गेण जवात् प्रयादा पूर्वसागरं सेनोर्मूर्ध्नश्चतुर्भेदा भूत्वा यादा चतुर्दिशं चतुर्भेदतया चाभूतस्य नाम्नां चतुष्टयं सीता चाल चालकनन्ता च सुचक्षुर्भद्रवि अगस्तपीदिचि शुष्कोदी गंगाफसा पुनः बुधयो बुध्यो पूर्वमाने समुद्रेदु दुसागर परिवर्धिते। अन्तर्हिता भवन्देशा बहवस्तत्समीपगाः समुद्रोपान्तवर्तीनि क्षेत्राणि च समन्ततः इतस्ततः प्रयाताश्च जनास्तन्निलया नृप गोकर्णमिति च क्षेत्रम् पूर्वं प्रोक्तं तु यत्तव अर्ममोपातवर्तित्वात् समुद्रे तर्धि मागमद तदस्तन्निलया सर्वे तदुद्धाराभिकाङ्क्षिणः सख्याद्रिर्भृगुशार्दूलं द्रष्टुकामा ययुर्नृप यदि ब्रह्मांडे महापुराणे वायुप्रोक्ते मध्यमभागे मा तृतीय उपोद्धातपादे गङ्गानयनं नाम षट्पञ्चशत्तमोऽध्यायः ॐ